हरि श्री श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीम अध्यात्मरामायणे युद्धकाण्डे एकादशसर्गः श्रीमादेव उवाच इत्युक्त्वा वचनम् प्रेम्णा राज्ञीम् मन्दोदरिं तदा रावणप्रयोद्धुम् रामेण स संयुगे दृढं चन्दनमासाय ृतो घोरे निशाचरे चक्रे षोडशभिर्युक्तम् सवरूथम् सकूबरम् पिशाचवदनैर्घोरैः करेर्युक्तम् भयावहम् सर्वास्त्रशस्त्रसहितम् सर्वोपस्करसंयुतम् निश्चक्रामाथत सा रावणो भीषणाकृतिः आयान्तम् रावणम् दृष्ट्वा भीषणम् ऋणकर्कषम् संसृताद्भूतदा सेना वानरी रामपालिता हनुमानथ चोत्प्लुत्य रावणम् योद्धुमाययो आगत्य हनुमान् रक्षो वक्षच्यूतुलविक्रमः मुष्टिबन्धम् दृढम् बद्ध्वा ताडयामास वेगतः तेन मुष्टिप्रहारेण जानुभ्याम्पतद्रथे मूर्छितोथ मुहूर्तेन रावण पुनरुत्थितः उवाच च हनुमन्तम् शूरोऽसि मम सम्मतः हनुमानाहतम् धिङ्माम् यः तम् हीवसि रावण तं दावन्मुष्टिनावक्षो मम ताडय रावण पश्चान्मया हत प्राणाम् मोक्षसे नात्र संशयः तथेति मुष्टिनावक्षो रावणेनापि ताडितः विघूर्णमानः नयनः किञ्चित् कश्मलमार्ययो संन्यामवाप्य कपिरात् रावणम् हन्तुमुद्यतः ततोऽन्यत्र गतो भीत्या रावणो राक्षसाधिपः हनुमान्नदश्चैव नलो नीलः तथैव चत्वार समभीत्याग्रे दृष्ट्वा राक्षसपुङ्गवान् अग्निवर्णम् तथा सर्प रोमाणम् खड्गरोमकम् तथा वृश्चिकरोमाणम् निर्जघ्नो क्रमशोऽसुरान् चत्वारश्चतुरो हत्वा राक्षसान् भीमविक्रमान् सिंहनादम् पृथक् कृत्वा रामपार्श्वम् उपागतः तथा दशग्रीव चन्द्रश्च दशनछदम् त्रिवृत्य रामम् एवान् वधावत् दशग्रीवो रथस्थस्तु रामम् वज्रोपमेश्वरैः अजघान महाघोरै धाराभिरिवतो यद् रामस्य पुरतः सर्वान् वानरान्नपि दिव्यथे तदभावकसङ्काशे शरीरकाञ्चन भूषणे अभ्यवर्च दृणे रामो दशग्रीवम् रथस्थम् रावणं दृष्ट्वा भूमिष्ठम् रघुनन्दनम् आहूय मातरम् चक्रु वचनम् चेदमब्रवीत् रथेन मम भूमिष्ठम् शीघ्रम् याहि रघुत्तमम् त्वरितम् भूतलम् गत्वा कुरु कार्यम् ममानघ एवम् उक्तोऽ सतम् नत्वा मातुली देवसारथी हरितैः स्यञ्जनोत्तमम् स्वर्गाध्यार्थम् रामस्य ह्युपचक्रा म मातलिः प्रज्वलिदेवराजेन प्रेषितोऽस्मि रघुत्तम रथोऽयम् देवराजस्य विजयाय तव प्रभो प्रेषितश्च महाराज धनुरीन्द्रम् च भूषितम् अभेद्यम् कवचम् खड्गम् दिव्यतोयुगम् तथा आरुह्य च रथम् राम रावणम् जहिराक्षसम् मया सारथिना देव पुत्रम् देवपतिर्यथा इत्युक्तः सम् परिक्रम्य नमस्कृत्य रथोत्तमम् अरुरोह रथम् रामो लोकान् लक्ष्म्यान् योजयन् ततो भवन् महायुद्धम् भैरवम् रोमहर्षणम् महात्मनो राघवस्य रावणस्य च धीमतः आग्नेयेन च अग्नेयम् दैवं दैवेन राघव अत्रम् राक्षसराजस्य जघान परमाश्रवीत् तत्र तु ससृजे घोरम् राक्षसम् चात्रमस्त्रवीत् क्रोधेन महता विष्टो रामस्योपरि रावणः रावणस्य धनुर्मुक्ता सर्पा भूत्वा चराकाञ्चनपुङ्खा राघवम् परितोपतन् तैश्चरैः सर्पवदनैनश्च विदिशश्चैव व्याप्तात् तत्र तदा भवन् रामः सर्पान् ततो दृष्ट्वा समन्तात् परिपूरितान् स्वपर्णमस्त्रं तद्घोरं पुर प्रावर्तय रामेणमुक्ता देवाणा भूत्वा गरुडरूपिणः चिक्षितु सर्पबाणाताम् समन्तात् सर्पशत्रवः अत्रे प्रतीहते युद्धे रामेण दशकन्धरः अभ्यवस्य ततो रामम् घोराभि शरवृष्टिभिः ततः पुनः शरानेकै रामम् अत्युच्चकारिणम् अर्जयित्वा तु मातलिम् प्रत्यविद्यते पातयित्वा रथोपस्थे रथकेतुं च काञ्चनम् इन्द्रानश्वानभ्यन रावण क्रोधमूर्च्छितः विषय दुर्देव गन्धर्वा चारणापितरस्तथा आकाकारम् हरिम् दृष्ट्वा व्यथिता च माशयः व्यथिता वानरेन्द्रा च बभूवू दशास्यो विंशति भुजः प्रगृहीतः शरासनः ददृशे रावणस्तत्र मैनाकयिपर्वतः रामस्तु भृतिम् बध्वा क्रोधसंरक्तलोचनः कोपं चकारसदृशम् निर्दहन्निव राक्षसम् धनुरादाय देवेन्द्र धनुराकारमद्भुतम् गृहीत्वा पाणिनाबाणम् कालानालसमप्रभम् निर्दहन्निव चक्षुर्भ्याम् ददृशे रिपुमन्तिके पराक्रमम् दर्शयितुम् तेजसा प्रज्वलन्निव प्रचक्रमे कालरूपी सर्वलोकस्य पश्यतः विकृष्य चापम् रामस्तु रावणं प्रतिविध्य च हर्षयन् वा नरानेकम् बभो क्रुद्धम् रामस्य वदनम् दृष्ट्वा शत्रुम् प्रबाधत तत्रसु सर्वभूतानि चाले च सुन्दर रामम् दृष्ट्वा महारौद्रम् उत्पातासि सुदारुणान् त्रस्तानि सर्वभूतानि रावणम् चाविशद्भयम् विमानस्था सुरगणः सिद्धगन्धर्वकिन्नरः ददृशु सुम्हायुद्धम् श्लोकसंवर्तकोपमम् ऐन्द्रमास्त्रम् समादाय रावणस्य शिरोच्छिन मूर्धानो रावणस्था रावणस्याथ बहवो ऋधिरोक्षिता गगनान् च पतन्ति स्म सालाधीव फलानि हि न दिनम् न च दृश्यते तत्र सङ्गरे ततो रामो बहुवाथ विस्मया विष्टमानसः शतमेकोत्तरं छिन्नम् शिरसाम् चैकवचसां न चैव रावणः शान्तो दृश्यते जीवितक्षयात् ततः सर्वात्र विद्धिर कौसल्यानन्दवर्धन अस्य च बहुभियुक्त चिन्तयामास राघव यद्य हतादैत्या महासत्वपराक्रमः ते तेन फलं याता रावणस्य निपातने इति चिन्ता कुले रामे समेपस्थोऽभिभीषणः उवाच राघवं वाक्यं ब्रह्मदत्तोऽवरोहो विच्छिन्ना बहवोप्यस्य विच्छिन्नानि शिरांसि च उत्पत्यन्ति पुनः शीघ्रम् इत्याह भगवानजः नाभिदेशे मुतम तस्य कुण्डलाकार संस्थितम् तच्छ्रूषया नलाश्रेण तस्य मृत्यु ततो भवेत् विभीचन वच श्रुत्वा राम शीघ्र पराक्रमः पावकास्त्रेण संयोज्य नाभिम् विव्याध रक्षसे अनन्तरं च चिच्छेद शिरांसि च महाबलः बहूनपि च संरब्धो रावणस्य रघुत्तमः ततो घोराम् आसक्तिम् आदाय दशकन्धरः विभीषणः वधार्थाय चिक्षे प्रक्रोधविवलः चिच्छेदराघगो बाणै तांक्षितैः हेम भूषितै दशग्रीवः शिरच्छेदात् तदा तेजो विनिर्गतम् रूपो बभूवथ शिने शीर्षे भयङ्गरै एकेन मुख्यशीर्षात् बाहुभ्यां रावणो बभौ रावणस्तु पुनः क्रुधो नाना शस्त्रात् वृष्टिभिः वर्ष रामं तं राम तथा बाणैर्व वर्षत् ततो युद्धं बभूद्घोरम् तुमलं रोमर्षणम् अथ सं अथ संस्मारयामास पातली राघवं तदा विसृयाश्रम् वधायास्य ब्राह्मम् शीघ्रम् रघुत्तमम् विनाशकालः पतितो यः सुरै सोऽद्य वर्तते उत्तमाङ्गम् न चैतस्य चेत्तव्यम् राघव त्वया नैव शीर्णी प्रभो वध्यो वध्यैव हि मर्मणि तथा संस्मारितो ता राम तेन वाक्येन जग्राह सह शरं दीप्तम् निश्वासन्तम् इवोरगम् यस्य पार्श्वे तु पवन फले पावको। भास्कर पावको शरीरमाकाशमयम् गौरवे मेरुमन्दरो पर्वस्वपि च विन्यस्ता लोकपाला महोजसह ज्वल्यमानम् वपुष भातम् भास्करवर्जस मुग्रम् अस्त्रम् लोकानाम् भयनाशनमद्भुतम् अभिमन्त्र्य ततो राम तं महेशु मह भुज वेद प्रोक्तेन विधिना तस्मिन् सन्धीमाने तु राघवेण शरोत्तमे सर्वभूतानि वित्रेषु चचाल चैव ब्रजमानम् अवकार्मुकम् चिक्षेप परमायात तमस्त्रं मर्मघातिनम् स वज्रैव दूर्धर्षो वज्रपाणि विसर्जितः कृतान्तव घोरास्यो निपत द्रावणोरसि स निमग्नो महाघोर शरीरान्तकरपरः बिभेद हृदयम् तूर्णम् रावणस्य महात्मनः रावणस्य हरत्राणाम् विवेश धरणीतले सशरो रावणम् हत्वा रामठोणी रमाविशत् तस्य हस्तात् पपाताशु सशरम् कार्मुकम् महेत् गतासु ब्रमी वेगेन राक्षसेन्द्रोः पतद्भुरि तद्दृष्ट्वा पतितम् भूमौ हतशेषाश्च राक्षसः हतनाथा भयत्र दुद्रुवः सर्वतोदिशम् दश ग्रीवस्यानिधनम् विजयम् राघवस्य च ततो विनेदु संवृष्टा वा न राजित रामविजयं वदन्तो रामविजयम् रावणस्य च तद्वधम् अथान्तरिक्षे विनदे सौम्यस्त्री दश पपाते पुष्पवृष्टि च समन्ताद्राघवोपरि तुष्टुवुर्म चारणा च दिवोकसः अथान्तरिक्षे नमृतौ सर्वतोपसरसो मुदा रावणस्य च देहोत्थम् ज्योतिरादित्यवत् प्रविवेश रघुश्रेष्ठम् देवानां पश्यताम् सतां, देवा उच्यहो भाग्यम् रावणस्य महात्मनः वयम् तु सात्विका देवा विष्णो भय का विष्णु कालुण्यभाजन भयदुखादिव्या संसारे पिवर्ति राक्षसक्रोरो ब्रह्मतामस पर विषु देशताप सहिसक पश्यसु सर्वूतेषु रासु देश नारद प्रा सुस्म तृणुतात्रयसुरायूयम् धर्मतत्त्वविचक्षणः रावणो राघवद्वेष अनिशम् हृदि भावयन् वृत्ते सहसदा राम चरितम् द्वेष संयुतः श्रुत्वा रामात्रनिधनम् मया सर्वत्र राघवम् पश्य ननो दिनम् स्वप्ने रामम् एवानुपश्यति क्रोधोऽपि रावणस्याशु गुरुबोधाधिको भवेत् रामेण नेतश्चान्ति निर्धूताशेषकर्मे रामसायुज्यमेवाप रावणो मुक्तबन्धनः पापिष्ठो वा दुरात्मा परधनर्परद्वारेषु सक्तो यदि स्यात् नित्यम् स्नेहात् भयाद् वा रघुकुलतिरकम् भावयन्तम् परेत भूस्वा शुद्धान्तरङ्गो भवशत जनितानेकदोषैर्विमुक्ते सद्यो राम श्रीविष्णो सुरवरविनतम् याति वैकुण्ठमाध्यम् हत्वा युद्धे दशास्यम् त्रिभुवनविषमम् वामस्तेन चापम् गोमौ विष्टभ्यतिष्ठन् नितरकरधृतम् भ्रामयन् बाणमेकम् आरक्तो पान्तनेत्रे शरदलिलितवपु सूर्यकोटिप्रकाशो वीर श्रीबन्धुराङ्गतिनुते पातु मां वीर राम इति श्रीमतध्यात्मरामायणे उमामैसम्वादे ग्रन्थकाण्डे एकादश सर्ग श्रीसीतारामचन्द्रार्पणमस्तु